इदम् त्वकार्यम् कुरु वीरमध्ये रजस्वलाम् यत्परिकर्षसे माम् न चापि कश्चित् कुरु तेऽत्र कुत्साम् ध्रुवम् तवेदम् नष्टः खलु भारतानाम् धर्मस्तथा क्षत्रविदाम् च यत्र ह्यतीताम् कुरु प्रेक्षन्ति सर्वे कुरवः द्रोणस्य भीष्मस्य च नास्ति सत्त्वम् क्षत्तुस्तथैवास्य राज्ञस्तथा हि मम धर्ममुग्रम् न लक्षयन्ते कुरु वृद्धमुख्याः इमम् प्रश्नमिमेऽब्रूत सर्व एव सभासदः जितां वाप्यचितां वा माम् सर्वभूमिपाः वैशम्पायन उवाच यथा ब्रुवन्तीकरुणम् सुमध्यमा भर्तॄन्कटाक्षैः कुपितानपश्यत् सा पाण्डवान् कोपपरीतदेहान् कृतेन राज्येन तथा धनेन रत्न मुख्यैर् तथा बभूव यहाकोपमीन कृष्णा कटाक्षेन दुख दुशासन समीक्ष्य कृष्ण मवेक्षा कृपाण पतींस्ता मुचदासी हसन सश्द कर्णस्तु तद्वाख्यमतीवृष्ट सूजयामास हसन सद् गाधारराजस्व पुत्रस्त दुशाभनंदत् सभ्यास्तु ते तत्र बभूरन्ये ताभ्याम् ऋते धार्तराष्ट्रेण चैव तेषामभूद्दुःखमतीव कृष्णाम् दृष्ट्वा सभायाम् परिकृष्यमाणाम् भीष्म उवाच न धर्मसौक्ष्म्यात् सुभगे विवेक्तु शक्नोमि ते प्रश्नमिमम् यथावत् अस्वाम्यशक्तः पणितुम् परस्वम् स्त्रियाश्च भर्तुर्वसताम् समीक्ष्य त्यजेत सर्वाम् पृथिवीम् समृद्धाम् युधिष्ठिरोद्धर्ममधो न जह्यात् उक्तम् जितोऽस्मीति च पाण्डवेन तस्मान्न श क्रोम विवेक्तुमे सत् द्यूते द्वितीयस्य कुनिर्नरेषु कुन्ती सुतस्तेन निसृष्टकामः न मन्यते ताम् निकृतिम् युधिष्ठिरस्तस्मान्नते प्रश्नमिमम् ब्रवीमि द्रौपद्युवाच आहूय राजाकुशलैरनार्यैर्दुष्टात्मभिर्नैः कृतिकैः सभायाम् द्यूतप्रियैर्नातिकृतप्रयत्नः कस्मादयम् नाम अशुद्धभावैर्निकृतिप्रवृत्तैरबुध्यमानः कुरु पाण्डवाग्र्यः सम्भूय सर्वैश्च जितोऽपि यस्मात् पश्चादयम् कैतवमभ्युपेतः तिष्ठन्ति चेमे कुरवः सभायामी सा सुतानाम् च तथा स्नुषाणाम् समीक्ष्य सर्वे मम चापि वाक्यम् विभ्रूत मे यथावत् न सा सभा वदन्ति धर्मम् नासौ धर्मो यत्र न न तत्सत्यम् यच्छलेनानुविद्धम् वैशम्पायन उवाच तथा करुणं करुणम् रुदन्तीमवेक्षमाणाम् कृपणान् पतीम् स्तान् दुःशासनः परुषाण्यप्रियाणि वाक्यान्युवाच मधुराणि चैव ताम् कृष्यमाणाम् च रजस्वलाम् मृकोदरः प्रेक्ष्य युधिष्ठिरम् चकारकोपम् परमार्तरूपः इति महाभारते महाभारभापर्वूतपर्वि द्रौपदी सप्त तमोध्याय है